श्रीमद्भागवतमहापुराणं दशंस्कन्ध प्रावृटश्रियं चतां तां वीक्ष्य भगवान् पूजयाश्चक्रे आत्मशक्त्योपवेहिताम् एवं निवसतो तस्मिन् रामकेशवयोर्वृजे सरतु सम्भवद्याभ्रां दिभ्रा स्वक्षाम्बपरुषालिला सरदा नीरजोत्पत्त्या नीराणि प्रकृतिं यजो भ्रष्टानामेव चेतांसे पुनर्योगनिषेवयां व्योम्नोऽब्दम्भूतसावल्यं भुवपङ्कमपामलं स्रज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभं सर्वस्वं जलदाहित्वा विरेजो शुभ्रवर्चश यथा चक्तैषणा शान्ता मुनियो मुक्तकिल्बाः गिर्योमुचुस्तोऽयं क्वचिन्नमुचु शिवं यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा जलं गाध जले चराः यथा यूरन्वहं अविन्दच्छलदर्कजं यथा दरिद्रकृपणकुटुम्ब्यविजितेन्द्रियः शनैः शनैजहुः पङ्कं थां स्थला न्यामं च विरुध यथाहं ममतां धीराशरीरादिस्वनां मसुः निश्चलाम्बूरभूतृष्णिं समुद्रसरदागमे आत्मन्योपरते सम्यग् मुनिोपरता गमः केदारेभ्यः तपो गृह्णन् कर्षकादृणसेतुभि यथा प्राणे स्रवज्ञानं तन्निरोधेन योगिनः शरदत्काशुजातापान् भूतानामुदुपो हरन् देहाभिमानजम्बोधो मुकुन्दो व्रजयोषिताम् कमशोभचनिर्वेघं सरद्विमलतारकम् सत्ययुक्तं यथा चित्तं शब्दब्रह्मार्सदर्शनम् अखण्डमण्डलो व्योम्नीरराजोऽडुगं लृणयिषी यथा यदुपति कृष्णो विष्णुचक्रावृतो भुवे आश्लिष्य शमशीतोष्णं प्रसूनवनमारुतं जनास्तापं जहुर्गोऽप्यो कृष्णहितचेतसः गावो मृगाखगानार्य पुष्पिण्य सर्वदा भवन् अन्वीयमाना स्वविषये फलैरीशक्रिया इव उदशिष्यन्वार्यानि सूर्योत्थाने मुकुन्द्विनां राज्ञा तु निर्भया लोका यथा दस्युन्मिनालप पुनग्रामेष्वाग्रहणैरीन्द्रियैश्च महोत्सवै ूं पक्विं सस्याढ्याकलाभ्यां नितरां हरे वळिमले निपस्नाता निर्गम्यार्थान् प्रपेदिरे दर्शरुद्धा यथा सिद्धा स्वपिण्डान् काल आगते इति श्रीमद्भागुते महापुराणे पारभुंसां सहितायाम् दशमस्कन्धे पूर्वाधिप्राविञ्चरन् वर्णनम् नाम วินสติตโมธยยห